श्रीरङ्गनाथपादुकासहस्रं पद्धति फोर् समर्पणपद्धति अनिष्टु भजामःपादुगेयाभ्यां भरदस्याग्रजस्तदा प्रायप्रतिप्रयाणाय प्रास्थानिकमकल्पयत् वसन्ततिलकम् राज्यं विहाय रघुवंशमहीपदीनां पौरांश्च पादरसिकान् पृथिवीं च रक्तां त्वामेव हन्तचरणावनि सम्प्रयास्यन् आलम्बदप्रथममुत्तरकोसलेन्द्रः प्राप्ते प्रयाणसमये मणिपादरक्षे वेक्ष्य पौरानवेक्ष्य भवती करुणप्रलापान् विनिवर्तनार्थं रामं पदग्रहणपूर्वमयाचतेव मत्वा तृणाय भरतो मणिपादरक्षे रामेण तां विरचितां रघुराजधानीम् मेव सप्रणयमुज्जयिनीं वन्दीं मेनेमहोदयमयीं मधुरामयोध्यां रामात्मनः प्रतिपदं मणिपादरक्षे विश्वम्भरस्य वहनेन परीक्षितां त्वां विश्वस्य दे विवहने विनिवेशयिष्यन् विश्रब्ध एवं परदो भवतीं ययाचे भक्त्या परं भवतु तद्भरतस्य साधोस्त्वत्प्रार्थनं रघुपदौ मणिपादरक्षे केनाशयेन स मुनिः परमार्थदर्शी भद्राय देवि जगदाम्भवदीमवादीत् रामे वनं व्रजति पङ्क्तिरथे प्रसुप्ते राज्यापवादचकिते भरदे तदानीम् आश्वासयेत्क िव कोसलवासिनष्टान् सीदेव चेत्त्वमपि साहसवृत्तिरासीः पादावनिप्रभवदो जगदां त्रयाणां रामादपि त्वमधिका नियतं प्रभावाद नो चेत्कथनुभरतस्य मेव लिप्सोः प्रत्यायनं परिपणं भवदी भवित्री मन्ये नियुज्य भवतीं मणिपादरक्षे पार्ष्णिग्रहस्य भरतस्य निवर्तनार्थं रत्नाकरं सपदी गोष्पदयन विजिज्ञे रामः नरजनी रजनीचरराजधानीम् पादावनि प्रभुतरानपराधवर्गान् सोढुं क्षमा त्वमसि मूर्तिमधीक्षमैव यत्त्वां विहाय निकदा परिपन्थिनस्ते देवेन दाशरथिना दशकण्ठमुख्याः वाक्ये गरीयसी पितुर्विहिदेप्यतृप्त्या माधुर्मनोरथमशेषमवन्ध्ययिष्यन् मन्ये तदा लघुपधिर्भरतस्य तेने मादस्त्वयैव मणिमौलिनिवेश्यलक्ष्मीम् पादाम्बुजाद्विकलिदां परमस्य पुंसस्त्वामादरेण विनिवेश्य जडाकलापे अंगी अङ्गीचकारभरदो मणिपादरक्षे गङ्गाधिरूढशिरसो गिरिशस्य कान्तिम् सप्तलोक्या अवकलमधिक्षण सप्तलोक्याघुपति चरणेन दिव्यां अभजद भरतस्ता मंजसा त्याग मणिमकुनिवेश मूर्ध्ना इयम इयमविकलयोगक्षेमसिद्ध्यैः प्रजानां मलमिति भरदेन प्रार्थितामादरेण रघुपतिरधिरोहन्नभ्यषिञ्चत् स्वयं त्वां चरणनखमणीनां चन्द्रिका निर्चरेण प्रणयिनि पदपद्मे गाढमाश्लिष्यदित्वा विधिसुधकथितं तद्वैभवं ते विदन्तः अनुदिनमृषयस्त्वा मार्चयन्त्यग्न्यगारे पदरक्षे रामगिर्याश्रमस्ताः नियतमधिरुरोहत्वामनाधेयशक्रिं निजचरणसरोजे शक्रिमाधादुकामः स कथमिदरधात्वान्यस्य रामो विजह्रे दृशदुपचितभूमौ दण्डकारण्यभागे पद रघुपति पदपद्मा रत्नपीठे निवेषुम भरदशिशिल प्रेक्ष्य पाद वन परण पुषाथस्वीम भजद वंदे वैतालिखा उपजाति अनन्यराजन्यनिदेशनिष्ठां चकारपृथ्वीं चतुरर्णवान्तां भ्रातुर्ययासोर्भरतस्तदात्वां मूर्ध्ना वकन्मूर्तिमदीमिवाज्ञाम् शार्दूलविक्रीडितं यद्भ्रात्रे भरदाय रङ्गपदिना रामत्वमातस्थुषा नित्योपास्य निजाङ्घ्रिनिष्क्रयतया निश्चित्य विश्राणितं योगक्षेमवहं समस्तजगदां यद्गीयदे योगिभिः पादत्राणमिदंमिदम्प चकथा मह्नाय मे निनुताम् गीति भरतस्येव ममापि प्रशमित विश्वापवाद दुर्जाता शेषेव शिरसि नित्यं विहरदुरकुबीरपादुके भवति इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे समर्पणपद्धतिश्चतुर्थी ओ